अथ पञ्चचत्वारिंशोऽध्यायः वैशम्पायनुवाच आदावेवाथतं शक्रश्चित्रसेनं रहो ब्रवीत् पार्थस्य चक्षुरुर्वश्यां सक्तं विज्ञाय वासवः गन्धर्वराजगच्छाद्यप्रहितोऽप्सरसामराम् ऊर्वशीं पुरुषव्याघ्रसोपातिष्ठतु फाल्गुणं यथार्चितो गृहीतास्त्रो विद्यया मन्नियो तथा त्वया विधातव्यं स्त्रीषु सङ्गविशारदः एवमुक्तस्तथेत्युक्त्वा सोऽनुज्ञाम् प्राप्य वासवात् गन्धर्वराजोऽप्सरसमभ्यगादुर्वशींवराम् ताम् दृष्ट्वा विदितो हृष्टः स्वागतेनार्चितस्तया सुखासीनः सुखासीनाम् स्मितपूर्वम् वचो ब्रवीत् विदितम् तेऽस्तु ऋदिवस्यैकराजेन त्वत्प्रसादाभिनन्दिना यस्तु देवमनुष्येषु प्रख्यातः सहजैर्गुणैः श्रियाशीलेन व्रतेन च दख्यातो बलवीर्येण सम्मतः प्रतिभानवान् वर्चस्वीतेजसा युक्तक्षमावान् वीतमत्सरः साङ्गोपनिषदान् वेदांश्चतुराख्यानपञ्चमान् योधीते गुरुशुश्रूषाम् मेधाम् चाश्च ब्रह्मचर्येण दाक्ष्येण प्रसवैर्वयसापिचा एको वै रक्षिता चैव त्रिदिवम् मघवानि वा अकत्थनो मानयिता स्थूललक्ष्यः प्रियं वदः सुहृदश्चान्नपानेन विविधेनाभिवर्षति सत्यवाक्पूजितो वक्तारूपवाननहङ्कृतः भक्तानुकम्पीकान्तश्च प्रियश्च स्थिरसङ्गरः प्रार्थनीयैर्गुणगणैर्महेन्द्रवरुणोपमः विदितस्तेऽर्जुनो वीरः सस्वर्गफलमाप्नुयात् त्वं तु शक्राभ्यनुज्ञाता तस्य पादान्तिकं व्रज तदेवं कुरु कल्याणि प्रसन्नस्त्वां धनञ्जयः एवमुक्तास्मितं कृत्वा सम्मानं बहुमन्य च प्रीता चित्रसेनमनिन्दिता यस्त्वस्य कथितः सत्यो गुणोद्देशस्त्वया मम तम् श्रुत्वा व्यथयम् पुंसो वृणुयान्ति महेन्द्रस्य नियोगेन त्वत्तः च तस्य चाहम् गुणौघेन फाल्गुणे जातमन्मथा गच्छ हि यथा काममागमिष्याम्यहम् सुखम् इति महाभार वनपर्वि इंद्रलोकागमनपर्व चित्रसोशी संवा पंचचत्ध्याय